भगवद्गीता चाप्टर् नैन् वर्षस् वन् टु टेन् अध नवमोऽध्यायः श्रीभगवानुवाच इदं तु दे गुह्यतमं प्रवक्ष्याम्य नूयवे ज्ञानं विज्ञानसहितं ज्ञात्वा मोक्षसे शुभा राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् प्रत्यक्षावगमम् धर्म्यम् सुसुखम् कर्तुमव्ययम् अश्रद्धधानात् पुरुषात् धर्मस्यास्य परम् तप अप्राप्यमाम् निवर्तन्ते मृत्युसंसारवर्त्मनि मया कथमिदम् सर्वम् जगदव्यस्त्रमूर्तिना मत्तानि सर्वभूतानि न चाकम् तेष्वस्थितः न भूतानि पश्य मे योगमैश्वरम् ममात्मा भूतभावनः यथा काचिदो नित्यम् वायुः महान् तथा सर्वाणि भूतानि मत्तानीत्युपधारय सर्वभूतानि कौन्देय प्रकृतिं यान्दिमामि ताम् कल्पक्षये कल्पादौ विसृजाम्यहम् प्रकृतिम् स्वामवष्टभ्य विसृजामि पुनः पुनः भूतग्राममिमम् कृष्णमवशम् प्रकृतेर्वशात् न जगत् त्रिभरि वर्तते भगवद्गीता चाप्टर् 11 वर्ष 20. अवजानन्दि मां मूढा मानुषीं तनुमाश्रितं परं भावमजानन्दो मम भूदमहेश्वरम् मोकाशामोककर्माणो मोकज्ञानाविचेतसः राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रुताः महात्मानस्तु मां पार्थदैवीं प्रकृतिमाश्रिताः भजन्त्यनन्यमनसो ज्ञात्वा भूदादिमव्ययं सततं कीर्तयन्तो मां यदन्तश्च दृढव्रताः नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ज्ञानयज्ञेन चात्यन्ये यजन्तो मामुपासदे एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् अहं प्रदुरसं यज्ञस्वदाहमहमौषधं मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् पिता क्रमस्य च कदोमादादापितामहः वेद्यं पवित्रमोङ्गारिक्षामयजुरेव च कतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृ प्रभवप्रलयस्थानं निधानं बीजमव्ययम् तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च अमृतं चैव मृत्युश्च सदसच्चाहमर्जुना त्रैविद्या मां सोमभाकुदभा यज्ञै दृष्ट्वा स्वर्गदिं प्रार्थयन्ते ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान् भगवद्गीता चाप्टर् नैन् वर्सस् ट्वेन्टि वन् टु तर्टि ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं एवं त्रयी धर्ममनुप्रपन्नागतागतं कामकामालभन्दे अनन्या चिन्तयन्तो मां ये जनाः पर्युवासदे तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः तेऽपि मामेव कौन्तेयजन्त्यविधिपूर्वकम् असं हि सर्वयज्ञानां भोक्त्रा च प्रभुरेव च न तु मामभिजानन्ति तत्त्वे रादश्च वन्ति यान्ति देवव्रता देवान् पितृन् यान्ति पितृव्रताः भूदानि यान्ति भूदेज्या यान्ति मध्याजिनोभिमाम् वक्त्रं पुष्पं बलं तोयं व्यो मे भक्त्या प्रयच्छति तदकं भक्त्युपहृदमश्नामि प्रयदात्मनः यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्तपस्यसि कौन्तेय तत् कुरुष्वमदर्पणम् शुभाशुभपदैरेवं मोक्ष्यसे कर्मबन्धनैः संन्यासयोगयुक्तात्मा विमु मामुपैष्यसि समोकं सर्वभूतेषु न मे द्वे स्योऽस्ति न प्रियः ये भजन्ति तु मां भक्र्या मयि अपि चेत् सुदुराचारो भजते महामनन्यभाक् साधुदेव स मन्तव्यं सम्यक् व्यवसितो हि सः भगवद्गीता चाप्टर् नैन् वर्षस् तर्टि वन् टु तर्टि फोर् क्षिप्रं भवति धर्मात्मा शश्व निगच्छति कौन्तेयप्रतिजानीहि न मे भक्तप्रणश्यति मां किपार्थव्यमाश्रित्य एभि स्युपापयोनयः स्त्रियो वैश्यास्तदा शूद्रास्तेभियान्दिवरां गतिम् किं पुनर्ब्राह्मणा पुण्या भक्त्रा राजश्रयस्तथा अनित्यमसुखं लोगमिमं प्राप्य भजः स्व मन्मना भवमद्भक्तो मद्याजीमां नमस्कुरु मां मे वैष्यसि युक्त्वैवमात्मानं मत्परायणः ॐ तत्सत् इति श्रीमद्भगवद्गीतासूपनिषत्सु नवमोऽध्यायः